नारायणसुप्तं श्रगुरुभ्यो नमः हरिः ॐ सहना भवतु सहनो भुनक्तो सहवीर्यं करवावभै तेजस्विनावधितमस्तु मा विद्विषावभिं ॐ शान्ति शान्ति शान्ति हरिः ॐ सहस्रशीरसं देवं विश्वाक्षं विश्वशम्भुवं विश्वं नारायणं देवमक्षरं परमं पदम् विश्वतः परमानित्यं विश्वं नारायणगम्बरिम् विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति पतिं विश्वस्यात्मे स्वरगं शाश्वतगं शिवमर्च्युतं नारायणं महाकेयं विश्वात्मानं परायणं नारायणपरो ज्योतिरात्मा नारायण पर नारायणपरं ब्रह्म तत्त्वं नारायणपरः नारायणपरो ध्यात ध्यानं नारायणपर यच्च किञ्चिज्जत्सर्वं दृश्यते श्रूयते पिब अन्तर्बहिष्ठतः सर्वं व्याप्य नारायणस्थितः अनन्तमविजयं कविगं समुद्रेन्तं विश्वशम्भुवं पद्मकोशप्रतिकाशकं हृदयं चाप्यधोमुखम् अधो निशावितशान्ते नाभ्यामुपरितिष्ठति ज्वालमालाकुलं भवति विश्वस्यायतनं महता संततगं सन्ततकं शिलाभिस्तुलम्बत्याकोशसन्निभं तस्यान्ते सुशिरगं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितं तस्य मध्ये महान् अग्निर्विश्वार्चिर्विश्वतोमुखः सोग्रभोग् विभजन्ते षण्णाहारमजलकविः जगूर्ध्वमधः सायिरश्मयस्तस्य सन्ततां सन्तापयति स्वं देहमापादतलमस्तकः तस्य मध्ये वह्निशिखा अळीर्यो ऊर्ध्वा व्यवस्थितः नीलतो यदमध्यस्था नैवादसुकवत्त आश्वत्यनुपमां तस्या आशिखाया मध्ये परमा आत्मा व्यवस्थितः स ब्रह्म श शिव स हरिसेन्द्रसोक्षरपरमस्वरा वितदं सत्यं परं ब्रह्मपुरुषं कृष्णपिङ्गलम् ओधरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॐ नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदया आत ॐ शां ते शां ते शान्तिः ॐ